मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं तर्टिफैव् सहस्रार्जुननिमन्त्रणं श्रीगणेशाय नमः मुद्गल उवाच चकारकार्तवीर्योऽयं सततो राज्यमुत्तमं धर्मेण राजनीत्या स्वां पालयामास हि प्रजा ततस्तेन च भूपेन चिताः सर्वे महीभृतः सप्तद्वीपवदीं पृथ्वीं भूभुजे बलसंयुतः देवै संस्थापितं नाम सहस्रार्जुन आदरात् न समस्तेन कश्चिद्वै बभूवक्षात्रमण्डले स्वर्गे देवादयश्चैवत्रासयुक्ता बभूविरे यदा क्रुद्धस्वयं राजा तदा स्वर्गं ग्रहीष्यति न सङ्ख्या वर्तते तस्य सैन्यानां च प्रजापते यशसा त्यजसा पूर्णं पूरितं तेन वै जगत् सस्त्रीको नर्मदामध्ये सहस्र एकदा सहस्रबाहुभिर्धृत्वा जलौकं तत्र लीलया यत्र वै नर्मदातीरे रावणः स महानुगः पुपूजशाङ्करं लिङ्गं जलौकस्तत्र चागतः पूजाविधिं स शीघ्रं समाप्य वैराक्षसाधिपः पप्रच्छखेन दुदेश जलौघसम्प्रवर्तितः गत्वा पश्यद मामत्र क्षोभयुक्तं स चाकरोत् तं हनिष्यामि सङ्क्रुद्धो नित्यभङ्गेन दुःखितः ततस्ते त्वरयाजग्मु तं कार्तवीर्यकं समाचख्युर्मः दैत्यं रावणं विस्मिता विभो श्रुत्वा वृत्तान्तमेवं स रावणस्तं व्ययौ नृपं प्रधानैषड्भिरत्यन्तं सहसा दृष्ट्वा गदां धृत्वा महाबलः आर्द्रवस्त्रेण संयुक्तो युयुधेऽर्जुन एकः गदायुद्धं महाघोरं तयोस्तत्र बभूवः ततः स गदया राजा पीडय परम् कवचादिकमेधस्य राक्षसस्य नराधिपका भेदयामास वैदक्ष रावणस्तद आपत सङ्गृह्य स्वगृहम् भूपो ययौ तत्र बबन्धतं निकटे स्थापयामास सभायां केलकारकं दशमस्त तकयुक्तं तं दृष्ट्वा चिक्रीडभूमिपः ततस्तं मुनिवर्यश्च पुलस्त्यः सहसाययौ तं प्रणम्य महाभागं गणपत्यं विशेषतः पुपूजभक्तिसंयुक्तो धोजयामास यत्नदः पुनः प्रणम्य तं विप्रं हृदाञ्जलिपुडःपुरः संस्थितस्तमुवाचाधमुनिःसर्वार्थ कोविदः रावणं मुञ्जराजेन्द्रमत्पौत्रं वरसंयुधं मित्रभावेन तिष्ठत्वं रावणस्य महामदे तथेति तं जगादासा वमुञ्जद्रावणं नृपः कुलस्त्यप्रयौ स्थानमाशिष्या चाभिनन्द्यतम् इत्यादि तेजसायुक्त युक्तः साक्षाद्विष्णुमयो नृपः नैव शक्यो वर्णयितुं धर्मशीरो बभूवः दिग्जये येन राज्ञा वै पादखाततः ताडितस विशीर्णो भूद्भयभेदप्रजापदे यज्ञान् स विपुलांश्चक्रे भूरि दक्षिणसंयुधान् स्वाहां स्वथा वषत्कारैर्मुमुदुर्देवतादयः येन द्विजेन यत्तत्र प्रार्थितं तद्दद्धौ नृपः स्वस्वधर्मरथान् लोकान् कारयामास यत्नतः सदा गणेशभक्त्रिं स चकारणपत्यप्रियश्चाशीत्तीर्थदेवातिथिप्रियः सदा गणेशभक्त्रिं स चकारृपसत्तमः गाणपत्यप्रियश्चासीत् तीर्थदेवातिथिप्रियः आगतसमयूरेशं यात्रां तत्र चकारः वर्षमात्रोषितो राजा यात्रार्थं लोलुपस्वयं गणेशं स्थापयामास ब्राह्मणैर्मन्त्रकोविदैः प्रवाल प्रलगणनाधे नाम पुपूजनाधर्भर्गणेशमजत सदा संगीदो बभूव कृतवीज चतुर्थी व्रतजन तेजसा संयुद बभ अङ्गहीनकभावेन मोहयुक्तो बभूवः देवादीनामभून्मान्यश्रिया परमयायुधः भोगयुक्तस्वभावेन विसस्मारगजाननं त्यक्त्वा मन्त्रं गणेशस्य ब्रह्मज्ञानमदेन सह अहम गणेश सन्कम्यवदत्ल तदो बभूवादिघ्न संयुक्त सोर्जुन प्रभो महाभाग कथयाम प्रचेषित सैन्येन संयुधो राजा मृगयार्थं वनं ययौ नीलवेषधरो भूत्वा सैनिकास्तादृशा बभुः जखानविधांस्तत्र मृगांस्तान् नगरे स्वके प्रशयामास दुदयिष विभ्रमन् यत्र तत्र वै ततोऽकस्मान् महाराजो ददार्शाश्रममुत्तमं मुनेः पप्रच्छ राजासौ सचिवान् तस्य चाश्रमः त ऊचो जमदग्नेर्वै मुनेराश्रम आगतः ततः सोऽपि मुनिं दक्षयययौ हर्षसमन्वितः प्रणम्य सचिवैर्मोख्यै संवृतः सकृताञ्जलिः उवाच मुनिशार्दूलं जमदग्निं महायशाः धन्यं मेद्यमहायोगिं जन्मज्ञानादिकं तथा कुलं च पितरो सर्वं त्वदङ्घ्रियुगदर्शनाद तदस्थं मुनि मुख्यो सा वासनादिकमादराद दत्त्वा शिष्यैश्च सम्पूज्य प्रश्च कुशलाधिकं प्रयोजनं तदा विप्र सम्पृच्छन् राजसत्तमं मानयामासतं भूपं विष्णो रंशसमुद्भवं तदो राजा मुनिं दक्षजगादप्रीतिसंयुधः तवाशीर्वचनेनैव कुशलं मे प्रवर्तते मृगया सक्तचित्तोऽहमागधो मुनिसत्तमा पूर्वपुण्यबलेनैव प्राप्तं दे दर्शनं महद सर्वैः सह महाभाग पवित्रोऽहं न संशयः दर्शनेनैव सन्तुष्ट आज्ञां देह्यधुना प्रभो गमिष्यामि ससैन्योऽहं नगरे महामदे नदे समश्च योगेन तपसा भासदे मम जगादमुनिमुख्योत्सौ ततस्तं हर्षसंयुतः विष्णो रंशस्वयं त्वं मे धुना सम्प्राप्त आश्रमे अनायसेन भो राजन्नतस्त्वां प्रार्थये विभो भुङ्क्ष्व किञ्चिन्मया दत्तमपराह्णे समागतः ततो राजा जगादेदं वचनं तं प्रणम्य च स्वामिन्वनेषु मे सैन्यं क्षुधितं भ्रमणे रथं कथमे कोकं भुनत्मि मुनिसत्तमा सर्वेषां भोजने शक्तिर्वर्धदे नैवते मुने वदामि तेन योगीन्द्र आज्ञां देहि च मे प्रभो गमिष्यामि त्वरायुक्तो नगरे सैन्यसंयुधः ततस्तं राजशार्दूलमुवाच मुनिसत्तमः न चिन्तां कुरु राजेन्द्रः ससैन्यं भोजयाम्यहम् तपसा मे महाराज वश्यं ब्रह्माण्डमण्डलम् अतस्त्वं गच्छ वै स्नानार्थं सर्वसंयुगः तथेदितं प्रणम्या सावगमत्सैन्यसंयुगः स्नानार्थं विस्मितो सहस्रार्जुन आदराद ॐ तत्सदि श्रीमदान्ध्ये श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सहस्रार्जुननिमन्त्रणं नाम पञ्चत्रिंशोऽध्यायः ॐ